पाकयज्ञम् वान्वाहिराग्ने श्वशव उपदिष्ठम् गिडा कर्वै पाकयज्ञस्येषाम् तनाब्जानो राजानयजमानस्य लोके वहितामाश्रियमाणामभिमन्त्रजोपवर्णवर्णदेहीतिपुषभो बालिडापशोनेभोपःपजते यदुजं वै देवा अधुकयज्ञोऽसुरागुम् अधुहत्तेऽसुरा यज्ञदुग्धापराभवनयो वै यज्ञश्च लोहम् विद्वान यजते जम दुहेसा मे सत्याशीलिद्या हेष वै यो हते नई वैनम दुहे प्रत्वे प्रेनाजमाय दुहे ते वाजुटाईस्तना बूदतेति वाजुर्वत्सोले नतरेजमादारमेक्षण वायु मनसाध्या मात्रे वत्समुपापसृजति सर्वेण वै यज्ञेन देवासुवर्गल्लोकमाजन्वाकजयज्ञेनाणुरस्यान्यमुपावर्तततां देवासुराव्यजन्दप्रतीची देवाः परा चेमसुराः स्यादेवानुपावर्तत पशवो वै देवानवर्णत पशवोऽसुरा न च हृर्यङ्कामजेता पशुस्याजतिपराचेन्दस्येडामुपह्जेता पशुदेवार्यङ्कामजे प्रतेचेन्दस्येडामु बह्वदे तपसुमाने भगवति ब्रह्मवादिनावनं सत्पादिडाम बह्मजे दि डामु बहूयात्मानमिडायामु बह्वेते दिशा नः प्रिजा सुप्रदोर्तिर्मखो नीत्याहे डामेव बहूयात्मानमिडायामु तद्यज्ञस्य यदिडासामि प्राश्नं दि सामिमाहार्जनं ददे तत्प्रति वा यज्ञां यच्छृहस्पतिस्तनुदामिमन् नगिज्ञा हव्यं ह वै देवानां बृहस्पतिर्ब्रह्मणैव यज्ञकं सन्दधातिमिच्छन्मै यज्ञकं समिमं दधात्विद्याः सन्तत्यै विश्वे देवादिहमादयं दामिद्याः सन्तत्यैव यज्ञं देवेभ्यो न दिशति यां वै यज्ञैरक्षिणां ददातिदामस्तपुषमोनुसङ्ग्रामं दि सजे शुम्भावको युजमानेन खलु वैदत्कारिणमित्या हृजछादेवत्रा दत्तम् कुर्वेदात्मन् पशून् रमजयते यद्ब्रथपिन्भस्वेद्याः यज्ञो वै रथ्नो यज्ञमेव लम्भह यत्रछोदेवत्रैव दत्तम् कुरुत आत्मन् पशून् रमयते न ततो मेमाक्षायीत्याः मे मोपदसदित्याह भूमानमेवोपैति सद्गृश्रवाहसौ वर्चलसस्तुमिन्दमौपोदिमुवाचयत्सज्ञणा गुण्हो दाभोः कामनामुबाह्वादिदामुबाह्वाचया प्राणेन देवान्दाधानज्ञानेन मनुष्या न पानेन विरेणिति छिनत्ति सा न छिनत्ती इति शणत्येति होमाच शलेदम्बा अस्त्येतदुपा आह्वोमाचगौर्वा अस्त्ये शलेदम्बाम्बावतौ तत्पर्यवदता या यज्ञाणेन देवाङ्गाधारष्याजीवं व्यसाजानेन मनुष्याणेतां पितृभ्यो यसा पानेन पितरेण जेतपसुमान् भवत्यथ वैतामुपा आह्म इति होवाचया प्रजा प्रभव न्दे प्रत्याभवदेत्यन्नं वा अस्येतदुपा आह्विभिहो वाचौषधयो वा अस्यामौषधयो वै प्रजा प्रभवं दे प्रत्याभवन्ति जदेवं वेदान्नादो भवत्य च वैदामु वा आह्वदिहो वाचया प्रजाह्वदा भवन् दे ननु गृह्णादि प्रत्याभवन्दे गृह्णादि प्रतिष्ठां वा अस्यैतदुपा प्रतिष्ठेदम्बे प्रजा पराभवन् वेदण गृह्णादिप्रत्याभवन् दे गृह्णादियदेवं वेदप्रत्ययवतिष्ठत् तथ वेदामुपाति होवादयस्यै विक्रमणे क्षदम् विजाः सन्देवं देः पिरं देति चिनत्ति सा न चिनत्ति येति नशिनत्येति होवाच प्रभुजनयतेत्येष बालिडामुपात्मसादिति होवाच वृष्टिर्वालिडा वृष्ट्यैवे निक्रमणे घृतम् प्रजा सञ्जीवन्ते पिबन्ति जेवम् वेदप्रैव जायते नादो भवति परोक्षं वा अन्ये देवा युज्यन्ते प्रत्यक्षमन्ये यज्ञज ते जवाः परोक्षयुज्यन्ते तानेव वा हारिन देवै देवाः प्रत्यक्षञ्जद्ब्राह्मणास्तानेव तेन प्रेमा तथो दक्षिणैवा सेशासो यज्ञस्यैव यज्ञस्य क्रोरै यज्ञ लष्टं तदन् यस्यान् देवदूता दे दे दे वा जयते यत् देवदूता नीणा भक्तमवश्यप्तमा प्राजापत्योलिदं वां विदुषोऽवाहार्यः श्रीयते साक्षादेव निरुप्योपरिमितः प्रजापतिः प्रजापते रात्रे देवावेदयज्ञे कुर्महार्यमपश्यन्त देवा अपमन्परा सुराजस्यैवं विदुषोऽवाहार्य आह्रियते भवत्यात्मना परास्य भ्रातृजोभवति यज्ञे न वारिष्टिपक्वेणीयस्यैवं विदुषोऽवाहार्य श्रियते सत्त्वे वयष्टापूर्ते प्रजापतेर्भागोऽसेत्याः प्रजापतिमेव भागधे लेख मुष्मिलोकजिज्ञाः क्षीयते वा अमुष्मिल्लोकेन्न भितः न विह्यमुष्मिल्लोके प्रजा उपदेवन्ति तदेवमभिमृषत्यक्षिमेवेन न स्यामुष्मिलोकेन्नम् क्षीयते बलेशोऽहम् देव जज्जलाः प्रजावाहान् भोजा समित्याः बलेशा वै प्रजापतिः प्रजा असृजते नैव प्रजासृजते नराशगम् तस्याहम् देव जज्जला पशुमान् भोजा समित्याह नराशगम् सेन यज्ञेन प्रदक्षाङ्गमे जत्याः दुरवात्मम् भत्य ष्ठमासजो वै देवा उज्झिति त्येयोयज्ञस्य त्वौ दोहौ विद्वान् यजतमु भजत एव यज्ञं दुहे पुरस्ता चोपलिष्टाच्चैषवान्यो यज्ञस्य दोहयुरायामन्यो जलोताहकामादि सग्स्तुता एव देवता दुहेचो भजत एव यज्ञं दुहे पुरस्ता चोपलिष्टाच्चरोहिदनत्वाज्ञर्दय ेवताङ्गमयित्याहैते वै देवाश्वा यजमानः प्रस्तरो यदेतये लोकं गमयति विदेमुञ्जामिरसनामिरश्मे नित्याहैशवा अग्नेर्मिमागस्तेनैवैनं विमुञ्चति विष्णुः शय्योरहं देव यज्ञया यज्ञेन स्याहं देव यज्ञया सुरेता रेतोषीदेव्याः सो नो वेदेतोधास्ये नैव रेतः मन्धत्ते त्वष्टोरहं देव यज्ञया पशुनागुं रूपं पुषेदमित्याः त्वष्टावे पशूनां व्यसनानागं रूपकृत्येनैवशोनागं रूपमात्मन्धत्ते देवानां पत्नीरज्ञर्गृहपदज्ञस्य विशनं तजोरहं देव यज्ञया वसेन प्रभूया समित्याहै तस्माद्वै मिथुना प्रजापधर्मिथुनेन प्राजाय तस्मादेवनो मिथुनेन प्रजाले विदेत्याह वेदेन वै देवा असुराणां वित्तं वेद्यमविन्देदस्यभिध्यायेत्तस्य नाम गृह्णे जात्तदेवास्य सर्वं रङ्गे श्रुतवं दङ्कुराजनगं राजस्पोषगं सहसृणं वेदो ददातु वाजि मित्याः प्रसहस्रम् प्रजायाम् जा जा वाजे जागते जग जा एवम् वेदा शुभाम् वेच्यमानाय यज्ञै यजमानो यजमानं प्रजा ध्रुवाप्याजमानाय यज्ञान्वाप्याजते यज्ञै यजमानो यजमानं प्रजावाप्याजदान्ध्रवाते नेत्याहद्ध्याजयजता माप्याजमानाय यज्ञान्वाप्याजते नाम लोकस्तस्मिन्नेवैनं दधाति सह यजमाने नवाने तद्य त्यजते यद्यमानभागं रास्नात्यात्मानमेव प्रेणात्येतावान वै यज्ञो यज्ञो यजमानो यद्यजमानभागं प्राश्नाति यज्ञदेव यज्ञं प्रतिष्ठापयत्येतद्वै सोजभागं सोदकयद्वरिश्चापश्चेतम् यजमानस्यायतन यद्वेदपूर्णपात्रमं दर्वेद्य निनयति स्वदेवायतने सौलवस किं सोलगं गुरुदे सदश सन्मे भूयायत्याः को वै यज्ञः पोमृतयज्ञमेवामृतमात्मन्धत्ते सर्वाणि वै भूतानि मृतमुपयं गमनोपयं तिप्राच्या दिशि देवा हृत्युजो मार्जयन्दामित्याहेश वैदर्शभोर्णमासौरवभृसो यान्ये यं दमनोभयं दि तैरेव सहा विष्णुमुखावै देवास््छन्दोभि जगति जा यद्विष्णुक्रमान् रमते विष्णुरेव भूत्वा यजमानच्छन्दोऽमान् लोकाननपजैमभिजगति विष्णाक्रमास्वभिमादिहेत्याह गायत्रैवै पृथिवेष्टभवम् दरिक्षन् जागते जौरानुष्ठुभेसछन्दोभिरेवे मान् लोकानि यथा पूर्वमभिजगति अगन्मसु वस्सुवरगन्मेद्याः सु सुवर्गमेव लोकमेति सन्दृशस्ते माच्छित्सि यत्ते तवस्तस्मै जै मा, मा वृक्षे ्रह्मवादिनो वदन्ति सत्त्वे विष्णक्रमान् क्रमे दजिमान् लोकान् भ्रातृजस्य संयज्य पुनरिमं लोकं प्रत्यवरो हे नित्येषवा अस्य लोकस्य प्रत्यवरोहो जलाहे भ्रातृजमाभ्यो दिभ्योऽस्त्रीव येमानेव लोकान् भातुजस्य संयज्य पुनरिमं लोकं प्रत्यवरोहरि संध्योतिषा भोगमित्याहास्मिन्नेव लोके कृ त्ययेन्द्रे मावृतमन्वा वर्तते व्याः सौमा आदित्ययन्द्रस्तस्यैव वृतमनुप्या वर्तते दक्षिणापर्या वर्तते स्वभव वीर्यमनुपर्या वर्तते तस्माद् दक्षिणोऽर्थ आत्मनो वीरजा वर्तरोथो वर्तते समहं वृजया संवया वृजयत्याः शश समिद्धो अग्ने मे अग्ने देव्या समित्याः यथा चतुरेवैतद्वसुमानयज्ञापसेदान् भोजा समित्याः शिषमेवैदामाशास्ते बहुवैगार्यः पत्यस्यान्ते विश्रमिवचर्यत आग्निपामानेभ्याङ्गार्यः पत्यमुपतिष्ठते पुनात्येवाग्निं पुनीत आत्मानं वाभ्यां प्रतिष्ठत्या अग्ने गृहपदगित्याः यथा चतुरेवैतच्छतगं हिमागत्याः पुत्रस्य नाम गृह्णात्यन्नादमे वैनं करोति तामाशमाशासे तं तवेद्यो निष्मति मितिम्ब्रूजाद्यस्य पुत्रो जातस्यात्येजस्मेवास्य ब्रह्मवर्त्यसि पुत्रो जायते तामाशषमाशासेवुष्मेज्योनिष्मति मितिम्ब्रूजाद्यस्य पुत्रो जातस्यात्यवास्मिन् ब्रह्म वर्त्यसं त्यप्रतिष्ठानो वै सभमधिकस्वा जुनत्वा विपुञ्चत्याह प्रजापतिर्वैकः प्रजापतिनैवेपतिना विपुञ्चति प्रतिष्ठित्या ईश्वरं वै व्रतमभिसृष्टं व्रदोग्ने व्रतमचारुषमित्याह व्रतमेऽपिसृजते शान्त्याः प्रदापते पुनर्जो वै यज्ञस्य पुनरालम्भं निवर्तते यज्ञापभो वस आेत्रैषवे यज्ञस्य पुनरालम्भस्ते नैव वरुध्या वादेतस्य विराज्ञः सन्न सभवः खलु वेभ्याह्नस्य सफेष्ट्वा पुत्रं न ब्रूयाद्वो मागुम् अग्ने विभागुम् अश्विज्ञयत्यव सभागं रुन्धे प्रसहस्रं वशूना ेव समितः प्रसुभज्ञम् प्रसुभ जज्ञपदिम् भगायदिम् योगन्धर्वः केदपोः केतन्नः पुनादवाचस्व निर्वाचमद्यस्मदाजिनः इन्द्रस्य वज्रो शिवार्तग्ध्वस्त्वजाजम् वृत्रम् बद्धा यस्यामिदम् विश्वम् भुवनमा विवेशस्या विशत्वन्तरमृतमप्सुभे वा मृत प्रशस्ति श्वश्वा भव समादिनः आयुर्वात्वा मनुर्वात्वा गन्धर्वा सप्तविगुंशतिः अग्ने अश्वमायुञ्जन्ते अस्मिन् जपमादधुः ्यः कुद्मान्वतोः सामस्ते नाजम्बाजगुंसे विष्णाक्रमासि विष्णोः क्रान्तमसि विष्णोर्विक्रान्तमस्यङ्कौण्तोरसंज्ञौ ध्वान्तम् वारम् लो दोय हेन्द्रियावाहम् पदत्रे ते नोग्नजः पप्रजः पारयन्तु देवस्याहकम् सवितुः प्रसवे बृहस्पतिनावाचजिता वाचम् जयम् देवस्याहकम् सवितुः प्रसवे बृहस्पतिनावाचति ता बहिकम् गृहे रमिन्द्राजवाचम् वदते रम्वाचम् चापजतेजयित् अश्वाजिनिवाचिनि वाजेषु वाजि निवत्यस्वाहा समत्सु शिवाज्य शिवाजिनो वाजम् धावतमलताम् कृसमेतजत वियोजनाममेध्यमध्वरस्कभेदकाष्ठाम् गच्छन वाजे वाजेवत वाजुनो नो धने च विप्रा अमृतारृतज्ञाः अस्य मध्वतमादधम् दृग्धातपथिमृद्देव जाने तेनो हर्मन्दोहवनश्रुतो हवम् विश्वे शण्मन्दुभाजिनः निध्रवः सहस्रसा मेथसा दासनिष्टवः महोरे रत्नको समिशेषु च भृेषन्मा भवन्तु वाजिनो हवेषु देवरातामितद्रवः स्वर्गाः जम्भजन्तो हिम्रकटुम् रक्षाकुम् यस्मद्युजमन्नमेवाः देशस्य वाजेक्षिमणिरन्यति बद्धो हविकक्ष आसने कृतम् शिक्रा अनुसन्तवे त्वत्पथामम् काव्यस्य वापने फणत् तस्मास्य द्रवतस्तुरङ्गतः पर्णन्न वेरनुवादि प्रगन्धिनः शेनस्य भद्रजतो अङ्कसंवलितशिक्राविण्णः सहोर्जाचरित्रतः आमावाजस्य प्रसमोदकम् ज्ञादावा पृथिवी विश्वशम्भो आमागन्ताम् नितरा मातराजा मा सोमो अमृतत्वायगम्यात् वाजिनो वाचज दोवाजकम् सृष्यम् तो वाजम् जयष्यम् तो बृहस्पतेर्भागमवजघत वाजिनो वाचज तोभाजकम् ससृवागम् सवाजम् जगिवाकम् स बृहस्पतेर्भागेन प्रमियम् मस्सा सत्या सन्धाभोद्यामिन्द्रेण समथध्वेजिपदमनस्पतजलिन्द्रम् वाजम् क्षत्रस्योद्वमसि क्षत्रस्य यो निरसि सुरोहावहि सुरहन्नाभयोः सुभोरोक्ष्यामि वाजश्च प्रसवश्चाभिजश्च क्रदश्च सुभश्च वोर्घाचव्यस्नेयश्चान्त्यानश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च आयुर्यज्ञेन कल्पतां प्राणोयज्ञेन कल्पतामपानो जज्ञानकल्पतां जानो यज्ञेन कल्पतां चक्षुर्जज्ञानकल्पता विश्रोत्रां यज्ञेन कल्पतां मनोजज्ञानकल्पतां वाग्यज्ञेन कल्पतामात्मा यज्ञानकल्पतां यज्ञो यज्ञेन कल्पता गुं सुमद्देवागुम् प्रजासमहगौ राजस्पोषेण सम्मजा राजस्पोषोन्नाजत्वान्नाद्याजत्वा वाचालत्वा वाचित्यादेशिरसि प्रजन नमसि वाजस्येमम् प्रसवसु शुभे अग्रे सोमगुम् राजा नमो दुधेष्वप्सु अस्मभ्यम् मधुमदेर्भवन्तु वजगौ राष्ट्रे जाग्नियाम पुरोहिताः राजस्येदम् प्रसव आबभो वयमा च विश्वाभवनानि सर्वतः राजम् वर्येत प्रजानन् प्रजाम् पुष्टिम् वर्धयमानो अस्मे राजस्येमाम् प्रसवशिश्रुजयतिमा च विश्वाभवनानि सम्राट् कृत्सङ्गन्दापयतु प्रजानन् प्रयञ्चनः सर्ववेदान्नियच्छतु अग्ने अक्षापदेह नः प्रतिनः भव प्रणायच्छभुवस्पते असुनस्त्वम् प्रणायच्छ त्वल्यमा प्रभ्रबृहस्पतिः प्रदेवादसोमृदा प्रभाे ददातुमहर्यमणम् बृहस्वतिमिन्द्रम् दानाय चोदयाष्णुगुं सरस्वये सविदानम् च वाचिनम् सोमगुम् राजानम् वरुणमग्निमन् आदित्याष्णपुं सौर्यम् ब्रह्माणम् च बृहस्पतिम् देवस्य ग्रासविदुः प्रसवे अश्विनाः बाहुभ्याम्भोष्णो हस्ताः भागुं सरस्वत्येव यन्तु यन्त्रेणाग्नेऽस्त्वासाम्राज्ये नाभिषञ्चामेन्द्रस्य बृहस्पतेऽ्वासाम्राज्ये नाभिषञ्चामि निरेकाः अक्षरेण वाचमुद जदस्विनोद्यक्षरेण अक्षरेण भक्ते लोकानुदजयत् सोमश्चतुरक्षरेण चतुष्पदः पशोनुदजत् पूषानञ्जाःक्षरेण पङ्क्तिमुद जयद्धातारेण हृतोनुदजयं मरुतः सप्ताक्षरेण सप्तपदागुंशक्रि मुदजयं क्षरेण त्रिभुतज्ञस्त्व ममदमरुणोदशाक्षरेण किरा जदीं प्रज एकादशाक्षरेण त्रिष्ट मुदजद्विश्वे देवानुवादशाक्षरेण जगति मुदज जन्म समस्त्रोदशाक्षरेण प्रजोदशग्रस्त्व ममदजयं षोडशज्ञस्तो ममुद जगत् प्रजापतिः सप्तदशाक्षरेण सप्तदशव्यस्तो ममुद जगत् उपजाम गृहे दोसि नृषदम् वा त्रिषदम् भुवनसदमिन्द्रायजुष्टम् गृह्णाम् एषतेजो निरिन्द्राजत्वोपजामगृहे दो स्या सुषदम् वा झदसदम् यो मसदमिन्द्रायजुष्टम् गृह्णाम् देशतेजो निरीन्द्राजत्वोपजाम गृहे दोसि पृश्य विषदम् पान्दरे घसतम् ये ग्रहाः पञ्चजनेनादेशाः तिस्रः परमजाः दैवल्यः कोशः समुर्जितः तेषाम् विषप्रियाणाम् विषमोर्जकम् समग्रभिमेष तेजो नरिन्द्राजत्वा अपागं रसमुरसकम् सोवितरश्मिकम् समाभृतम् अपागं रसस्यजो रसस्तम्बो गृह्णान्युक्तमेष तेजो नरिन्द्रायत्वा अजाविष्ठा जन जङ्कर्वराजिसहिरुर्वराजगातुः स प्रच्युदयेः धरणो मध्वो अग्रग्यस्वायाञ्जप्तनुवाहान्तो मेरयितोऽसि प्रजापदजयत्वा दुष्टम् गृह्णाम् नेषदयजोनिः प्रजापदयत्वा अन्वहमासा अन्विल्पान्यन्वोषधेरनुपर्वता सह अन्विन्द्र किं रोदसी वावसाने अन्वापो अजिहतजायमानम् मनुतेलानि महरिम् त्रिलाय सत्रा देविश्वमनुविद्रहत्ये परोक्षब्रमणसहारेन्द्रदेवेभिरनुषह्ये इन्द्राणी वासुनाविषसुपत्नी महमश्रमम् न ह्यस्या अवरञ्चन जलसामलदेपतिः ृते यस्येतम्यगम् हविःप्रियम् देवेषु गच्छति मनस्वान् देवो देवान् नृगुमामृजभूषत् यस्य सुष्माद्योदसी अभ्यसेतान् बृह्णस्य मह्नासजनासलिङ्गः महरिन्द्रो चुग्रसमन्यभो यत्समरम् दसेनाः पथाविद्युन्नस्य बाहुवोर्मा ते मनो विश्वनियग्विचारीत् मानो मधीराभरान्न प्रदा सुषे दातवे भूरि यत्ते नव्ये तेष्णेशस्ते अस्मिन् तवक्षे प्रप्रभ्रपामवयमिन्द्रस्तु वन्दः आतु भरमागिरे तत्पतिष्ठाद्विग्मा हि त्वा वसुपतिम् वसूनाम् येन्द्रयत्ते माहिनम् दत् रमस्त्यस्मभ्यम् दद्धल्य स्वप्रजन्धे प्रदा रकम् हवामः इन्द्रमाहपिषावयम् उभाहिहस्तावसुना वृणस्वा प्रयत्स दक्षिणादोतसौत् राजा वज्रे वृषभस्तुराशात् अस्मे यज्ञे बलहिष्यादिषद्या साथवलजमाना इन्द्रः सुत्रामा स्वभागुम् अबोभिः स्मृडे गो भवतु विश्ववेदाः बाहतान्द्वेषाभयङ्कृणात् सुवीर्यस्य पदयस्याम तस्य पजगम् सुमतौ यज्ञयस्यापि भद्रे सौ मनसे स्याम स सुत्रामा स्वभागुम् इन्द्रो अस्मे आराचिद्वेषस्तुजोतुर्णः समाज विवाजाः क्षुमम् तो या धर्मदे मा प्रोश्वस्मै पुरो रथमिन्द्राय सोषमर्चता अभिकेचिदुलोककृत्सङ्गे समत्सुमित्रः अस्माकम् बोधिचोदिता न भन्तामन्यकेशाधिखन्वसु गो